प्रदक्षिणीदभिगृणन्तिकारवो वयो वदन्दा ऋतुथा शकुन्दया उ॒भे वाचौ सामगा इव गायत्रञ्चात्रैष्टुभं चानुराजती क्षिणीदभिगृणन्तिकारवो वयो वदन्दा ऋतुथा शकुन्दया उभे वदति सामगा इव गायत्रञ्चात्रैष्टुभं क्षिणीदभिगृणन्दि कारवो वयो वदन्दा ऋतुथा शकुन्तया उ॒भे वाचौ सामगा इव गायत्रञ्चत्रैष्टुभं